परशुं मृगकरतलैप्रणामाञ्जलि भस्माूलनपाण्डरु शशिकला गङ्गा कपद्वोज्वल पर्याय त्रिपुरान्तकं प्रमदश्रेष्ठं गणं दीवतु ब्रह्मेन्द्राच्युतपूजिताङ्ग्रिकमलम् श्रीनन्दिकेशं भजे श्रीनन्दिकय स्वरो चिन्तय सदा हृदये श्रीनन्दे स्वरूप चिन्तय शिलाधमुनि तुषित सदा शिव कृपा समुदित कुमार प्ररूपदारिणो तापस शाधमुनि तुषित सदा पार्वती रमणी गु पिपा रमणी गु श्रीपा